मार्कण्डेयपुराणम् <marchandeya> अध्यायं 131 एण्ड् तर्टि वन् दमचरितवर्णनं मार्कण्डेय उवाच सदां लब्ध्वा तथा पत्नीं सुमनां सुमहामुने प्रणम्य स पिदुःपादौ सा च तौ श्वशुरौ शुभ्रूर्ननामसुमना तदा ताभ्यां तौज तदा विप्र आशीर्भिरभिनन्दितौ महोत्सवश्च सञ्जज्ञे नरिष्यन्तस्य वैपुरे कृदधारेजसम्प्राप्ते दशार्णाधिपतेः पुरात् सम्बन्धिनं दशार्नेशं जिदांश्च पृथिवीश्वरान् श्रुत्या पुत्रेण मुमुदे नरिष्यन्दो महीपतिः सोऽपि रेमे सुमनया महाराजसुतोदमः वरोद्यानवनोद्देश्ये प्रसादगिरिसानुषु अध महदा रममाना दमेन सा अवापगर्भे सुमना दशार्णाधिपते सुदा सोऽपि राजा नरिष्यन्तो भुक्तभोगो महीपतिः वयः परिणतिं प्राप्य दमं राज्येऽभिषिच्य वनं जगामेन्द्रसेनापत्नी चास्य तपस्विनी वानप्रस्थविधानेन स तत्र समधिष्ठत वपुष्मान् स मृगान्हन्तुं यया वल्पपदानुगः शतं दृष्ट्वा नरिष्यन्तं तापः सम्मलपङ्गिनम् इन्द्रसेनां च तत्पत्नीं तपसादिसुदुर्बलाम् पप्रच्छकस्त्वं भो विप्रहः क्षत्रियो वा वनेचरः वानप्रस्थमनुप्राप्तो वैश्यो वा मम कथ्यताम् तदो मौनव्रदि भोगो न हि तस्योत्तरं ददौ इन्द्रसेना च तत्सर्वमाचष्टास्मै मार्कण्डेय उवाच ज्ञात्वा तं च नरिष्यन्दं वपुष्मान्पितरं रिपोः प्राप्तोऽसीदिवदन् कोपात् जडासु परिगृह्य च हाहेदिचन्द्रसेनायां रुदन्त्यां बाष्पगद्गदं वाक्यं चेदमुवाचः निर्जितः समरे येन सुमनाहृदा दमस्य तस्य पितरं हनिष्ये वधु तं दमः येनाखिल महीपालपुत्रा कन्यार्थमागताः अवधूदा हनिष्ये कम्पिदरं तस्य दुर्मदेः यौवनास्त्रस्वरूपेषु मदे यस्य दुरात्मनः सदमो वारय त्वेष हन्मितस्यारिपोर्गुरुम् इत्युक्त्वा सदुराचारो वपुष्मान्वनीपतिः क्रन्दन्त्यामिन्द्रसेनायां शिरश्चिच्छेदतस्य च तदो धिग्धिङ्मुनिजना अन्येच वनवासिनः तमोचुः सचतं हत्वा जगामस्व पुरं वनाद गदे तस्मिन् विनिश्वस्य सेन्द्रसेना वपुष्मति प्रेषयामासपुत्रस्य समीपं शूद्रतापसं गच्छेथा आशु मे पुत्रं दमं ब्रूहि वचो मम अभिज्ञ्यसी मर्तृवृत्ता प्रोच्यतेत्र किं तथाच्युत्रो मे यद्रवीम्यधिदुखिदनादृशीं पापोक्य महीपदेहे मर्धि राजा चतुर्नां परिपालकः त्वमाश्रमाणां किं युक्तं तापसान्यन्नराक्षसि भर्ता मम नरिष्यन्तस्तापसस्तपसि स्थितः विलपन्द्यास्तथा नाथो यथा नासि तथा त्वयि आकृष्य बलादपराधं विना ततः हदो वपुष्मदाख्यादिमिति ते भूपदिर्गदा एवं स्थिते तत् क्रियतां यथा धर्मो न वस्तव्यं मादाहं तपसि पिता वृद्धस्तपस्वी च न पराधेन दूषितः निगधो येन यत्तस्य कर्तव्यं तद्विचिन्त्यतां सन्धिते मन्त्रिणो वीरास्सर्वशास्त्रार्थवेदिनः तैः सहालोच्य यत्कार्यमेवं भूदे कुरुष्व नास्माकमधिकारोऽत्र तापसानां नराधिपकुरुष्वैददिदीर्थन्त्वमेवं भूपदिभाषितं विदूरधस्य जनको यवनेन यथाहतः तथायं तव पुत्रस्य कुलं तेन विनाशितम् जम्भस्यासुरराजस्य पिता दष्टो भुजङ्गमयी तेनाप्यखिलपादालवासिनः पन्नगा हदाः पराशरेण पितरं शकृं तं रक्षसा हदं श्रुत्वाग्नौ पादितं कृष्णं रक्षसामभवत्कुलम् अन्यस्यापि स्ववंशस्य लङ्घना क्रियते हि या तां नालं क्षत्रियः सोढुं किं पुनः पितृमारणं नायं पिता ते निहदो नास्मिञ्च्छं निपातितंमत्र निहदं मन्ये त्वयि शस्त्रं बिभेत्यस्य हि कश्श्रं न्यस्तं येन वनौकसं तव नृपस्य पुत्रस्य मा बिभेदु बिभेदुवा तवेयं लङ्घनायुक्ता यदस्मिंस्तत्समाचर वपुष्मतिमहाराज सभृत्यज्ञादिबान्धवे मार्कण्डेय उवाच इति सङ्क्रान्तसन्देशमिन्द्रसेना विसृज्य तं पतिदेहमुपाश्लिष्य विवेश्याग्निम्मनश्विनी इति श्रीमार्कण्डेयपुराणे दमचरितवर्णनं नामयत्रिंशदधिकशततमोऽध्यायः ओ